नापदं दशकं वसुदे नन्दोपरे विधिदकं ससकाय जनोद्यमक ऐषके तव बालक जन्म मां सुखयदेत्यनिज मज जन्मवत् इदि भवत् पितृतां प्रजनाय समधिरोऽप्यचसं सदमादरात् एकच निमेत्न सदा नित्यं घटकसीं निदो लघुकम्यताम् इति च दत्मचसा व्रजनायको भवदपायपिया धृतमाययो भवसरे कलुतः तचका च न व्रजपते मधुरा कृतिरङ्गन लेत कुदला कपट पोदगते निकटं गता बालक सभादित बाल चेदना नीचरन् भाचिलोतमा ब्रजाोिके य मे दे चणो विम्रसे शोबाबा तामुपाद ललिता बाबा बिलादी प्रदा दोषी बाबा कपाटात्माने समाधिरोमाशा बालकलो पानरो मखादिवापल को च मेढलो प्रदे चो शेत दोद्मेष दोषेतो आसो भिरे धया दे तु ये स्थानामासो स्थाने पमाने स्वाना निरपद भयतापि निपो प्रदि कदा प्रविसार्यबु जो पो भयद गो षण भे षणवे गृह श्रवण दर्शन मोकितवल्लभे व्रजपते तोरस्थल केलनो नानो भवाम कृष्ण गोपीकोखो भुवन मङ्गल नामभि प्रदरक्षण त्वमयि वादनिकेतनना तमां हकदय कोरता बकसेबको ब्रजेश्वर शौर्यवचो निशम्य समाव्रजन्नात्मनि बीतचेतां निष्पिष्टेषदरुं निरञ्च कञ्चित् पदार्थं चरणं गदा स्वां निशम्य गोपे वचनादुदन्तं सर्वेऽपि गोपा भयवि स्मयान्ताका तत्पादिदं गोरपि शाश्व दे कोण्तो रेदकुटारकृतं तत्पीतपोदस्तनदशरीरात् कौल्कुलबोधमेते मदङ्गशङ्कस्य फलं न दो ट्रेयं क्षणे न धावद्भवधामपि स्यात् इत्युल्लभं वल्लभतल्लजेप्य तं आदनुता सुकिं चैत्रं पिशास्य नगद कुमारक चैत्रं पुरवा गतिचौ ऋणीतं प्रशंस किल फलोको भवन्मुख लोकरसेनक्षेत् दिने दिने द प्रतिवृत्त लक्ष्मी रक्षीणमङ्गल्यसतो व्रजोऽयं भवन्नि वासादयि वासुदेव प्रमोदसान्त्रपरिदोभिरजे गृहेषु ते कोमळरोपकास इतः कदा संकुलितकमयक वृत्येषु कृत्येषु भवन्निरीक्षा समागदा प्रत्यगमध्यनन्दन् अहो कुमारो मयि दत्तदृष्टिः स्मितं कृतं मां प्रतिवत्सखेन एके कि माम् इत्युभसाद्यपाणे त्वये च किं किं माताम्रसरोजमाला यालं विलोलं बतुला मलासिंही निपाययन्ति स्तनमङ्कं त्वां विलोकयन्ति वदनं घसन्ति दशां यशोदा कथ मां न भेजे सदा दृशपाहि हरे गतं मां सर्वत्र गोविन्द नाम गोविन्द नापत्रण्डां दशकं चकटासुरवदवर्णनं कथा बिजन्मक्षदिने तव प्रपो निमन्त्रिदङ्याधि भवतु मही सुराः महानस स्वां सविते निधाय स महानसादो भव्रजेश्वरी तदो भवत्राणनियुक्तबालकप्रपीति सङ्क्रन्तनसङ्कुलोरवीय मिमिश्रमश्रावि भवत् समीपदक परिस्फुट्चटोरवक तदस्तदा कर्णनसम्भ्रम श्रमप्रकम्पेक्ष भोजपरा भ्रजाङ्गनाः भवन्तमन्द्र मन्ददक विनिष्पदारु तारो मद्यकम् चिशोरको किं किमबोद्यतं प्रताव्यनन्द पशुपाशभोऽसुराका भवन्तमालोक्य यशोदया त्रिदौ समाश्वजलात्रलोचनाका कस्को न कौदस्कुतये श विस्मयो विशङ्कटं यच्चकटं विपाटितं न कारणं किञ्चिदिहेति दत्तकरास्वधीक्षकां का कुमारकस्यास्य पयोधरानकं प्ररोदने लोलपदां कथं मया मया दृष्टमनो विपर्यकाद् इदीशते पालकबालका जगुको वियाततां किञ्चित् जानतामितं कुमारकाणाम् अधिदुर्घटं वचक भव प्रभा मिथुरैरितो मनागिवा शङ्ख्यद्रष्टबोधनैके प्रभालताम्रं किमितं पदं क्षतं सरोजरम्यो नु करो विरोदितो यदि प्रसन्न करुणातरङ्गिताका त्वदङ्गमा पृशुरङ्गना जनाः अय सुता देहि जगत्पते कृपातरङ्कपादात् परिपादमध्यमे इति स्म सङ्गृत्यपिदात्पदङ्को मघोन् मघोश्लेष्यति जादकण्ठक अनोलीन किलकन्तुमागतः ख सुरारिरेवं भवताभिहिंसितख रजोऽपि नो दृष्टममुष्य तत्कथं स सुदसद् मे प्रभो जितैस्तत्र तदोति जातिभिः विशेषतोऽयं विदमङ्कलाषकं प्रजं निजै बाल्य रसे विमोकयन् मरोत्पुरादि सरोजां जगिहि मे सर्वत्र गोविन्दनामसंकीर्तनं गोविन्द गोविन्द नापतिमूणां दशकं तृणावर्त वद वर्णने त्वामे गदा गुरुमरुत्पुरनादवोढं काडाधिरोढकरिमाणमपारयन्ति माता निदाय शयने किमिदं भते ते जायन्त्यचेष्टद गृहेषु निमिष्टशङ्काम् तावत् पिदोरमुपकर्णि दघोरघोरव्याजृम्बिपांसु पठले परिपूरि दाशकं वाद्यां सखिल दैत्यवर तृणाभर्ताख्यो जकारं जनमानसकारिणं त्वाम् ं सुते मेराकधृष्टिपाते दृष्टिं किमप्य कुशले पशुपाललोके हा बालकस्य किमिति तदुपान्दमाप्ता माता मा भवन्तमभिलोक्यभृशं रुरोत् तावत्सतानवरोऽपि च दे न मूर्तिः पावत् खभारपरिधारण लोनवेक सङ्कोचमापददनुक्षद ं सुघोषे घोषे व्यथा यथ भवज्जनोत क रोतोपकर्णनवशान् उपगम्यकेकं ग्रन्दत्सो नन्दमुखकोपकुलेषु दीनखं तां दानभस्तु किल मुक्तिपरं ममक्षुको त्वय्य प्रमुञ्च दीपपादवियत् प्रदेशात् रोदाकुलस्तदनुकोपघण भगिष्ट पाषाण पृष्ठभुवि देहमधिस्तमिष्टं प्रैक्षन्त हन्त निपतन्त ममोक्ष वक्षस्य क्षीणमेव च भवन्तमलं हसन्तं ग्राभप्रपादपरिपृष्ठगरिष्ठदेकभ्रष्टा सुष्टदनुजोपरि दृष्टकांसम् आज्ञानमम्बुजकरेण भवन्तमेद्य कोपादुर्गिरिवरा त्रिमनी निलरत्नम् कैकमाशु परिग्रह्यनिकमनन्दनन्दा देयं कोप परिरप्तमिषुम्बिताङ्कम् आदा परिशङ्कितम् कोप नारि अस्ताम्बुजप्रभतितो प्रणमो भवन्तो भूयोऽपि किं नु कृणु मां प्रणदातृहरि गोविन्द परिपालय दा सुदमक इत्यातिमातरपितृ प्रमुखैस्तदानी सम्प्रार्थिदस्पदवनाय विभोत्वमेव बाधात्मकं धनुजमेव मयि प्रदुन्दे भवान् मम कदा किं वा करोमि पुनरप्यनिलालये च निःशेषरोगसमना मुरु गोविन्द नाम गोविन्दोविन्द नापति न दशकम् नामकरणं वर्णिपद गूटं वसुदेव किरां कर्तुं ते निष्क्रियैष्य संस्कारान् हृत्कदकोरा तद्भो गर्गमुनिके त्वत् घृतं विभो गतवान् नन्तोतनङ्कितात्मा बृन्दिष्टं बाणयन्नमुं मन्दस्मिदार्त्रमोचे त्वसंस्कारान् विदादमोत्सुकतिः यद् वं चाञ्चायत्मात् स्वनिप्रदमिदमार्यं गर्गो निर्गदपुलकचक्रे तव सक्रजस्य नामानि कतमस्य नाम कुर्मे सहस्रनाम्नो ह्यनन्दनाम्नो वा विधि नूनं गद्गमुनिके चक्रे तव नाम नाम ऋषि धातु नकाराभ्यां सत् आनन्दात्मतां किलाभिलपत् जगदगकर्षित्वं वा कदयधृषिके कृष्णनामते व्यदनोत् अन्यां च नाम वेतान् व्याकुण्ड अक्रजे च रामादीन् परिमानुषानुभावो ज्ञगद त्वाम् अप्रकाशयल् पित्रे स्निह्यधियस्तव पुत्रे मुख्यते सनमायिकैः धृक्ष्यति यः सदु नश्येत् नित्यवदते मघत्वं ऋषिवर्यध्येष्यति बहुदर दैकोन् नेष्यति निजभन्तु ने लोकमलपदो मा श्रोष्यति सुविमलकीर्तिरश्चेते भवति पोते ऋषिरुचे अमुनैव तरिदास्त रिदास्तकृतास्तमात्रतिष्ठत्वो हरिध्यन विलपन् इत्यादि त्वाम् अवर्णयत्स मुनिये कथे दनिकदेस्मिन् नन्दितनन्तादिनन्द्यमानस्त्व मत्कद मत्कदकरुणो निर्घमय श्रेयं मरुत्पुरादीश सर्वत्र गोविन्द नाम सङ्गीर्तनं गोविन्दोविन्दपति गो अशकं बालक्रीडये वर्णिपदमुरारे पाणिजानप्रचार किमपि भवन बाकान् उषयन्तो भवन्तो चलिद चरणकंजो मञ्जु मञ्जीर सिञ्जा श्रवण कोदग बाजो मृद मृद विकसन्तो उन्मेषो मदनपदि दकेशो दृश्यपादा च देशो भुजकलिदकरान्तं जालकत्कङ्कणाङ्को मा मा के पश्यतां विश्वनृणा अनुसरदि जनौ के कौदुकौ को व्याकुलाक्षे किमपि कृदनिनाथौ व्याघसन्तो द्रवतो बलिदवदनपद्मा पृष्ठदो तत्तदृष्टे किमिव न विदधा ते कौदुकं वासुदे त्रिदकदिषुपतन्तां उत्थिदौ लिप्तपङ्कौ तिभिमुनिपिरपङ्खे सस्मिदौ वैद्यमानौ त्रिधमदजननीभ्यां सानुकम्बां गृहीतो मुहुरभिपरिरब्धौ राज्ञुवां चुम्बितौ च श्रुतकुच परमङ्खे रयन्ते भवन्तो तरलमदीयशोदा सन्यदा धन्यदन्या कपटपशुपमध्ये मुक्तकांसाङ्कुरं ते दशनमुकुलकृद्यं वीक्ष वद्रं च दर्श तदनुचरणचोर्यं तारकैः सा करान् निलय ददु शुकेलन् बालचापल्यचारी हे भवन अशोक पिडलों ने वत्सकांशानुधावन् कदमभि कृदकोऽसैके कोपकैर् वारितो बोको हलधरसखिधस्त्वां यत्र यत्रोपयोदक विवशपदि धनेत्राका तत्र तत्रैव कोप्यग विगलितघृककृत्या मुरकरमुकुरत्यन्ताकुला नित्यमासन् प्रदि नवनवनीता कोऽपि खादत्तमिच्छन् कलपदमुपगायन् कोमलं क्वापि को सदयुवधि लोकैः अर्पिदं सर्पि रश्नन् क्वचन नव विपक्व दुग्धमप्यापि भस्तु मम खलु बलिकैः याचनं जातमासाम् इह पुनर्बलाना अग्रतो नैव कुम्भे इति विहितमति किं सन्ध्यज्ञयाज्ञां दधि कृतमकरस्त्व चारुणाचोरणेन तव दधि कृतमोषे घोषयोष जना अभजदकृतिरोषो नावकाशं न चोकद हृदयमभिमोषयन् मां हर्षसिन्धोऽन्यधास्तो समम समयरोकान् वदके काचिनात् शाकां प्रेत मिदुम्बिलोक्य पलमेत्यं वाञ्छदाथं मुकुको सम्प्रार्थ्यथ तदा तदीयवचसा प्रक्षिप्तभाकौ त्वयि चित्रं देव शशी सदे करमखात् किं ब्रोमके संपदक, ज्योतिन्मण्टलपूरितां किल वपुको प्रागां विराटोपतां किं किं बतेतमिति सम्प्रमभाजमेनं ब्रह्माण्डवेक्षणमो परिमज्जतां मायां पुनस्तनयमोकमये न्ने आनन्दचिन्मय जगन्मय पाहि रोकात् सर्वत्र गोविन्द नाम सङ्कीर्तनं गोविन्द गोविन्द <coughs> नापति आरं दशकं विश्वंल्लवी पुनरप्यै समा त्वयिलीला निरते जगत्पते पलसञ्चय वञ्चनकृता नमोचुरद्बका अयि ते प्रलया वदो विभो कृशनदौ रुजा भवेत् इति भीता जननि शुकोपसा अयि दोर्विनयात्मकत्वया किमृत्स वद वत्स भक्षिता यदि मातृकिरं चिरं विभो विदतां त्वं आयिते सगले विनिश्चिते विमति चेत्पधनं विदार्यताम् इति मातृविभत्सेतो मुकां मि हसत्पद्मनिपं व्यदारयक अभिमृल्लवदर्चन सुखां जननीं तां भगुदर्पयन्निव प्रथिवेम् निकिलां न केवला के भुवनानप्य किलान्यनेत्रशक गो गचित्पनम् अम्बोदे क्वचित् क्वचित् प्रं गो गचेत्र सातलं मनुजा तनुजा क्वचित् सुराका ददृशी किं न ददात्वदानने कलशाम्बो देशायिनं पुनकं पर वैकुण्ठपदादिवासिनो स्वपुरश्च निजार्भगात्मकं गदिता त्वां न ददत्ससामुखे भुवने मुको धरे नन भूयो वितदा विदाननक अनया स्फुटमेक्षतो भवान् अनवस्थां जगतां पदादनोत् त्रिद तत्पदीयं तदाक्षणा जननीं तां प्रणयेन मोकयन् सर्वत्र गोविन्दनाम संकीर्तनं नापति दशकम् तयिकले ताल् अरुदल् नापत् नापत् चि पडिको एके माद मादरं समबे अङ्क मे च पपि बान् पयो धर अर्त पेद को चोटले त्वये श्रेत मधुराम्बुजे दुग्धने परे श्रुता धर्दुमासुजनने जकामते सामी पीतरसभङ्क संकत क्रोध मार परि पोद चेतसा मन्तदण्डमु पाडितवा हन्त देव ददे पजनं त्वया उच्चलध्वनिदमोच्चगैस्तथा सन्निशम्य जननि समादृता त्वज्ञशोऽपि सर्वत्त दच्छस सत्य एव दधि पे श्रं क्षितो वेदमार्ग परिमार्गेदं मृष त्वामवीक्ष परिमार्गयञ्जसा सन्ददर्श सुकृदिन्य लोकले दीयमाननभनीतमोतमे त्वां प्रकृ भीति भावना पासुरानन सरोजमाचु सा रोष रोषितमुखे सखे पुरो भन्दनाय रचना भोपातते भन्दुमिच्छति यमेव संचनस्तम्भवन्दुमिच्छति सा नियुज्य रचना गुणान् बगुण द्वङ्कुलो नम किलं किलक्षत भीस्मि दोस्मि दशखे जनक्षितां स्विन्न सन्नभुषम् निरीक्षतां नित्यमुक्त बभोरप्योकरे भल्तमेव कृपया मन्यतां का सीयतां चिरमो लोकले आगता भवन मे वसायता प्राकु लोकलपिलान्दरे तथा सद्भिरत्पिदमदन्न भासितां का यज्ञपाससुखमो विभो एव मा दे देव जैरभेष्टिपाकि मां गतात् उदा सुरौ कैस्वमुदार सम्मदैः उदीर्यदा मोदर यत्यभिष्ठुदक मृदोदर स्वैरमुलोकले लगन् अधो रदतो ककुपा भोदैक्षता का कुपेरसोनोर्नळकोपराभितख परो मणिग्रीवयति प्रदाङ्गतक मकेश सेवाति कदान्मतो चिरं किलत्पत् निमुका बके लतां सुरा बकायां किलद मधोत्कटं सुरा बकायद् भगुकामृत विभासौ केलि परौ सनारदक भवत्पदे ग निरक्षद बिया लोकमुपात वासौ पुरो निरीक्षापि मदा दचेतसो इमो भवद्भक्त्युभशान्ति मुने जगौ शान्तिं हृदे कुदे सुखं युवाप्तौ खगुपात्मतां चिरं हरिन्निरीक्षातपदं स्वमाप्नुतम् इति रितौ दो बभदे क्षणस्पृकां कतौ व्रजान्ते खगुभौ बपो बधुको अदन्त्रमिन्द्र त्रियुकं तथाविधं समेयुषा मन्तरकामिनात्मया तिरायुतो लो कलरोद निर्दौ चिराय जीर्णौ परिपादितौ तरो अपाजिषाजेत् विधयं यत त्वया तदैव दधतला निरेयुषा महात्मिषा यक्षयुखेन तत्क्षणात् अपाजि गोविन्दभवास्तव एकान्यभक्तोशमिष्यति क्रमात् भवन्तमेतो खलु रुद्रसेवको मुनिप्रसादाद् भवदङ्ग्रिमागतो कदौ वृणानो खलु भक्तिमुत्तमां तदस्तरुद्धारणतारुणारभप्रकम्पे सम्पातिनि कोपमण्डले विलज्जिदत्तज्जननी मुखेक्षिणा व्यमोक्षि नन्देन भवान् विमोक्षदख महे रुकोर्म तदौ पदार्पको हरे प्रपादपरिक्षदोधुनादिं ब्रमाणै गमितो गृहं भवान् मरोत्पुराति शरपाहि मां सर्वत्र गोविन्द नाम गोविन्दा गोविन्द <coughs> नापति ओं दशकं कोप ने भवत्प्रवां वितुरायिकोपाकरुप्रपादाधिकमात्र गोष्ठे अकेतुमुत्पादकणं प्रयादु प्रयादुमन्यत्र मनोभितेनुको तत्रो बनन्दापिधोपवर्यक जगो भवत्प्रेरणयैव नूनम् इत प्रतिशां विपिनं मनोज्ञो वृन्तावनं नाम विराजति जगत्मनं तत् खलु नन्दमुख्याका विधाय गोटीनमदक्षणेन त्वदन्विध त्वज्जननि कुरप्रणातान्दरतो भवद्विनोता लभिताक्षराणि प्रपीय नाचा यदमार्गदैर्घ्यं निरीक्षबृन्दावनमीश नन्दप्रसूनं कुन्तप्रमुखद्रुमोघम् अमो तदा सात्फलशान्त्रलक्ष्म्या हरिमणिं कोटिमपोष्टशोपा नवाकनिर्भ्योढनिवासमेशो ha sa sa ko pesu sukhasitsho banashriyam kopakichora pole vimishrada paryaga lokatasvam अरालमार्कागद निर्मलापां मरालकोजाग्रधनिर्मालापां निरन्तरस्मेर सरोजवक्त्रां कळिन्दकन्यां समलो गयस्त्वा मयोरके का शतलोपनीयं समन्त कोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमाकां ततस्ततस्थां कुटिलामपश्यकलिंदजां राघवदे मे बैकां तदा पिते स्म विपिने बसौ समुत्सुको वत्सगणप्रचारे समीर सर्वत्र अशकं कुरुमेक परल मधुग्रे बृन्दानेतमनोकरे पशुभशिशुभिसाको वत्सानुपालन लोलुपक हलधर सकोपदेव श्रीम विचेरि ददारयन् कबलमुरळीभेत्रो नेत्राभिरामदनु बिगिद जगदी रक्षो लक्ष्मीकराम्बु जलोलितौ तदधि चरणद्वन्ता वृन्दवने चयिपावने किमिव संबत, भवत् सम्पूरिदं तरुमल्लरी सलिलतरणि गोत्र क्षेत्रोदिकं कमलपते विलसदोलभे कान्तारान्ते समिरणशीतले विपुल यमुनातीरे a yeah. गोवर्धनाचलमूर्धसु ललितमुरलीनाथसञ्चार्य कलुवात्सकं क्वचनदिवसे दैत्यं वत्स कृतिं त्वमुदैक्षता का तपसविलसत्पुञ्छं विच्छायतोऽस्य विलोकयन् किमपि बलिदस्कन्दो रन्ध्रप्रत्यक्षमुदीक्षितौ तमद शरणे विप्रिभ्रामयन् मुकुरुचकैके गुहचन मक वृक्षे शिक्षे विदक्षद जीवितो निबध दे मकाद जात्यारात्मनि तक्षणो निबधन जवक्षुण्ण क्षुणी वृन्तार ब्रेंता कुसु मोत् करे सिरसि भवन्ति नामदता करे सुर बिलमाध्यन्योर्था कुद कुसुमावलिं निबधदि दवेत्युक्तक बालै सकेलमुदैरयक झटिति तनुजक्षे पेणोध्वां कदस्तरुमण्टलत् कुसुमनिकरसोयं नूनं समेधि चनैरि क्वचन देवसे भूयो भूयस्तरे परुषातपे तपनतनया पातकः पादं गता भवदादयक चलिदकरुदं प्रेक्षामासोत्पकं खलु विस्मृता क्षिदितरकरुचेते कैलासचैलमिवापरो पिबति सलिलं को भ्राते भवन्तमभिधृतक स किल निखिलन्नग्निप्रज्ञौ पुनधृतमुत्पमलने तलयद् मखात्रोक्षाकोट्या तथा तु भवान् विभो खलजनपित चुञ्जुको चञ्जु प्रकृत्य दत्ता रथ सभदि सगजां सन्द्रष्टं वां वृथां कलपोतनाम् अनुजमघमभ्यग्रे गत्वा प्रदीक्षितुमेव वा समननिलयं याते तस्मिन् भके सुमनोगणे किरदि सुमनो बृन्दो बृन्दावनात् कृकमय्यताका ललितमुरलीनाथ दूरान्निशम्यबो जनैके त्वरिदमुपकम्यारात् जनिद जननी नन्दीरणमूरे सर्वत्र गोविन्दनामसङ्गीर्तनं अशकं कण्णन् वनभोजनं कदाचनं व्रजचि शुभे समं भवान् वनाचने बिहिधमदि प्रकेतरां समवृतो भगोधर वत्समण्डलैके सते मनै निरगमति च जै मनैः विनिर्यतस्तव चरणम्बुद त्वयाते उदञ्चितं त्रिभुवनपाभनं रजकं मघर्षय पुलकधरे कले वरैहे उतो क्षिरे हृदभवदे क्षणो समाहा प्रचारयत्य विरलसत्फले कले पशुन् विभो बबधि समं कुमारकैके अघासुरो ज्ञरुणदकायवर्धने कयानक सबदिशयानककृदिके मखल प्रधिमधनो गुहाने बप्रसारित प्रदितमुखस्य कानने मुखोदरं विगरण कौदुगाद् गताका कुमारके मि पितुरके त्वये प्रमाद प्रविशदि पल् न दत्तनौ पशुभकुले स वत्सखें विदन्निधं त्वमबिविवेशित प्रभो सुकृज्जनं विशरणमासुरक्षिता कलोधरें विपुलितबक्ष्मण त्वया मको रके लुडदिनुरुद्धमारुते विमोचय पशुभपशून् विनिय क्षणं देवे तदपा सोरा प्रबाबा मगो मगो मग मे दो दोनले न मञ्जसा नापस्ले नन्दो र सोरो सखै भवान् अदनुदबो जनोत्सवा विषाणि नि अभिमुरली निदम्बके निवेचयन कबल धर करम् प्रकाशय कलवचने कुमार्यकान्ने पुभोजित त्रिदशकणे मोदा नुतख सुखाशनं फिगत भकोपमल्ठले मकाशनात् प्रियमिवळले यदि स्तु दशत्रिदश वरे जगत्पते मरोत्पुरे निलय ददात् प्रपाकि मां सर्वत्र गोविन्दनाम संकीर्तनं गो 15 ार मध्ये महाभारतम् अद्वैताम्रतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीम् अम्ब त्वाम् अनुसन्ततां मे भगवद्गीते भवद् नमोऽस्तु बुद्धे व्यासविशालबुद्धे पुल्लारविन्तां यदपत्रनेत्र येन त्वया भारततैलपुणक प्रज्वलितो प्रपन्न परिजाताया तोत्र वेत्रैकपाणये ज्ञानमोत्राय कृष्णाय गीतामृदतु गी नमक वसुधे वसुदं देवं कं सचाणोरमर्धनं देवके परमानन्दं कृष्णं वन्दे जगत्कुरं भीष्मत्रोणतटाम् जयत्रधला कान्तारणे लोत्मला शल्यक्रोकवती कृपेण बगने कर्णेन वेलकुला अश्वत्थामभिगर्णघोरमकरां दुर्योदनावर्धिनी सोति न कलो पाण्डवैरण केशवक पाराचर्य भरो मरिकता गीथर्तगन्तोत्कटं नानक केसरों लोके सज्जन षट् पदैर करखं मुदा भोयाद्भारतपङ्कजो कलिमलप्रद्वंसिनः श्रेयसे मोकं करोति वाचालं भङ्गं लङ्गयति गिरिं यत्कृपातमकं वन्दे परमानन्दमाधवं यं ब्रह्मा वरुणेन्द्ररुद्रमरुदक सुन्दन्ति दिव्यैस्तवैः वेदैः साङ्कपदक्रमोपनिषदैः गायन्ति यं सामगाखा ज्ञानावस्तिदतत्कथेन मनसा पश्यन्ति यं योगिनकं यस्यान्तं न विदुः सुरां सुरगणकां देवाय तस्मै नमः चाप्टर् पञ्जु पुरुषोत्तमयोगम् अधः पञ्चदशोऽध्यायक श्रीभगवानुवाचलमदशाखं प्राकुरं च यस्य पर्णानि अधश्चार्थान् प्रसृतास्तस्य शङ्कां गुणप्रवृद्धा विषयप्रवालाः अधश्च मूलान् अनुसन्तदानीं कन्मानुभन्ते निमनुष्यलोके न रूपमस्ये कथोपलभ्यते नातो न ना चाते न च चा सम्प्रतिष्ठा अश्वत्थमेनं स्वमिरोढमूलम् असङ्गचस्त्रेण घृतेन चेत् मां पदं तत्परिमार्गितुव्यं यस्मिन् गता न निबद्धन्ति तमेव चात्यं पुरुषं प्रभृतिं यथा प्रवृत्ते प्रसृता पुराणे निर्माणमोहा जिदसङ्कदोषा अध्यात्मनित्या विनिवृत्तकामोहा द्वन्द्वे वि मुक्तां सुखदुःखसंज्ञैके गच्छन्त्यमूटा पदमव्ययं तत् न तद्भासयते शून्यक न शशाङ्को न पावकखं यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ममे वांशो जीवलोके जीवबोतः सनातनखम् मनश्चानि त्रियाणि प्रकृतिस्थानि कर्षते शरीरं यतवाप्नोति यच्चाप्योत्क्रामदेश्वरक गृहे त्वैतानि संयाते वायोर्गन्तानि वाचयात् श्रोत्रं षष्ठस्पर्शनं च रसनं घ्राणमेप च अधिष्टाय मनश्चायो विषयानुपसेवते उत्क्रामन्तं स्थितं वा पे पुज्यानं वा गुणान्विता विमूढानानुपश्यन्ते पश्यन्त्यज्ञानचक्षुषक यदन्तो योगिनश्चैनो पश्चन्यात्मन्यभस्थितं यदन्तोऽप्यकृदात्मानख नैनं न्तचेतसखं यदा देत्यकथं ते जख जगद्भासय ते किलं यच्छन्द्रमसि यच्छाक्नो तत् तेजो विद्धि मामकं गामावेश्य च भूतानि पुष्णामि चौषधि सन्वाका सोमो भूत्वा रसात्मक अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुङ्क्तः पचां यन्नं च दुर्मितम् सर्वस्य चोकं कृदि सन्निवेष्टक मत्तस्मृतिर्ज्ञानमपोखनं च वेदैः स सर्वैरगमेव वेद्यक वेदान्तकृत् मेदमिदेव चौकं त्वामिम पुरुषो लोके चरश्चाक्षरमेव च अक्षरसर्पाणि भूतानि कोटस्तोक्षर उच्यते उत्तमः पुरुषस्वन्य परमात्मेत्युदाकृतक यो लोकत्रयमावेश्य बिभर्तो यय ईश्वरकं यस्माक्षरमतितो अक्षरातमेचोत्तमकम् अतोऽस्मि लोके मेधे च प्रथितः पुरुषोत्तमख यो माम् एवमसं मूडक जानाति पुरुषोत्तमं स सर्वविद्भजति मां सर्वभावेन भारत हिदि कोख्यतमं चास्रो इदमुक्तं मया नग एतद्भुद्भावत् कृधकृत्यश्च भारत ॐ तत्सते यदि श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायत् ॐ नमो भगवत् ते वासुदेवाय सर्वधन्मान् परित्यज्य मामेकं चरणं व्रज अहं त्वा सर्वपापेप्यक मोक्षयेष्यामि मा चुषक गीताशास्रमिदं पुण्यं यः पठेत् ृष्णो पदमवाप्नोति भयशोकाति भर्जितकं गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ते पापानि पूर्वजन्मकृतानि जलस्नानं दिने दिने सकृघेताम्बसे स्नानो संसारमलनाचनो गीता सुखीता कर्तव्य किमन्यै चास्त्रविस्तरैः या स्वयं मुखपद्मात्मिनि श्रुता भारताम्रदसन् भस्म विष्णोर्भक्त्रात्मिनि श्रुता गीता गङ्कोतकम्पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावक दोक्ता गोपालनं दनक पार्थो भत्सस् सु देर्भोक्ता दुग्धं गीतामृदम् मगत एकं चास्रं देवके पुत्रगीतम् एको देवो देवके पुत्र एव एको मन्त्रस्तस्य नामानि यानि कर्मप्येको तस्य देवस्य सेवा त्वमेव माता च पिथौ त्वमेव त्वमेव बन्धुस्य त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सल्मो मम देवदेव सर्वत्र गोविन्दनामसङ्गकीर्तनं गोविन्द गोविन्द <coughs>